अमर्षजो हि सन्तापः पावकाद्दीप्ति मत्तरः येनाहमभि सन्तप्तो ननत्तन्नदिवाशये अयम् च पार्थोऽभि भर्त्सुर्वरिष्ठो द्याविकर्षणे आस्ते परम सन्तप्तो नूनम् सिंह इवाशये योऽयमेकोऽभिमनुते सर्वान् लोके धनुर्भृतः सोऽयमात्मजमूष्माणम् महाहस्तीव नकुलः सह देवश्च वृद्धा माता च वीरसूः तवैव प्रियमिच्छन्त आसते जड मूकवत् सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः अहमेकश्च सन्तप्तो माता च प्रतिविन्ध्यतः प्राप्ताः सर्वे नातः पापीयसि काचिदापद्राजन् भविष्यति यन्नो नीचैरल्प बलैराज्यमाच्छेद्य भुज्यते शीलदोषाद्घृणाविष्ट आदृशम् स्यात्परन्तप क्लेषां स्थितिः क्षसे राजन् नान्यः कश्चित् प्रशंसति श्रोत्रि राजन् मन्दकस्याविपश्चितः अनुवाकः ता बुद्धिर्नैषातत्वार्थदर्शिनी घृणी ब्राह्मणसी कथम क्षेत्रे जायता अस्न नौ क्रूर क्रूरबुद्धय